कालिकायै च विद्महे स्मशानवासिन्नै धीमहि तन्नो काली प्रचोदया कालिकायै च स्मशानवासिन्नै श्मशानवासिन्नै धीमहि तन्नो काली प्रचोदयात् कालिकायै विद्महे स्मशानवासिन्नै नै धीमहि तन्नो काली प्रचोदया कालिकायै च विद्महे स्मशानवासिन्नै धीमहि तन्नो काली, काली प्रचोदया कालिकायै च विद्महे स्मशानवासिन्नै धीमहि तन्नो काली प्रचोदयात्